अथ चतुर्दशः सर्गः पुत्रशोकार्जितम् पापाभिसञ्ज्ञम् पतितम् भुवि विचेष्टमानमुत्प्रेक्ष्य ऐक्ष्वा कमिदमब्रवीत् पापम् कृत्वेव किमिदम् मम संश्रुत्य संश्रवम् शेषे शे क्षितितले सन्नः स्थित्याम् स्थातुम् त्वमर्हसि आहुः सत्यम् हि परमम् धर्मम् धर्मविदो सत्यमाश्रित्य च मया त्वम् धर्मम् प्रतिचोदितः संश्रुत्य शैव्यः श्येनाय प्रदायपक्षिणे राजा जगामगतिमुत्तमा तथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे याचमाने स्वके नेत्रे उद्धृत्या विमना ददौ सरिताम् तु सत्यमन्वितः सत्यानुरोधात् समये वेलाम् स्वाम्नातिवर्तते सत्यमेकपदम् ब्रह्म सत्ये धर्मः प्रतिष्ठितः सत्यमेवाक्षया वेदाः सत्येनावाप्यते परम् सत्यम् समनुवर्तस्व यदि धर्मे धृता मतिः स वरः सफलो सत्तमा धर्मस्यैवाभिकामार्थम् मम चैवाभिचोदनात् प्रव्राजयसु तम् रामम् त्रिः खलु त्वाम् रवीम्यहम् न करिष्यसि अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम् एवम् प्रचोदितो राजा कैकेय्या निर्विशङ्कया नाशकत्पाशमुन्मोक्तुम् बलिरिन्द्र कृतम् यथा उद्भ्रान्तहृदयश्चापि विवरणवदनोऽभवत् सधुर्यो वैपरिस्पन्दम् युगचक्रान्तरम् यथा विकलाभ्याम् च नेत्राभ्यामपश्यन्निवभूमिपः कृच्छ्राद्धैर्येण संस्तभ्यकैकेयीमिदमब्रवीत् यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः सन्त्यजामि स्वयम् चैव तव पुत्रम् सह त्वया प्रयातारजनी देवि सूर्यस्योदयनम् प्रति अभिषेकाय हि जनस्त्वरयिष्यति माम् ध्रुवम् रामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः रामः कारयितव्यो मे मृतस्य सलिलक्रिया सपुत्रया त्वया नैव सलिलक्रिया व्याहन्तास्य शुभाचारे यदि रामाभिषेचनम् न शक्तोऽद्यास्म्यहम् दृष्ट्वा पूर्वम् तथा मुखम् हत हर्षम् तथानन्दम् पुनर्जनमवाङ्मुखम् ताम् तथा ब्रुवतस्तस्य भूमि पश्य महात्मनः प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रमालिनी ततः पापसमाचारा कैकेयी पार्थिवम् पुनः उवाचपरुषम् वाक्यम् वाक्यज्ञानोषमूर्च्छिता किमिदम् भाषसे राजन् वाक्यम् गररुजोपमम् आनायितुमक्लिष्टम् पुत्रम् राममिहार्हसि स्थाप्य राज्ये मम सुतम् कृत्वा रामम् वनेचरम् निःसपत्नाम् च माम् कृत्वा कृतकृत्यो भविष्यसि स तु न इव तीक्ष्णेण प्रचोदेन हयोत्तमः राजा प्रचोदितो भीक्ष्णम् कैकेय्या वाक्यमब्रवीत् धर्मबन्धेन बद्धोऽस्मि नष्टा च मम चेतना ज्येष्ठम् पुत्रम् प्रियम् रामम् द्रष्टुमिच्छामि धार्मिकम् ततः प्रभाताम् रजनीमुदिते च दिवाकरे पुण्ये नक्षत्रयोगे च मुहूर्ते च समागते वसिष्ठो गुणसम्पन्नः शिष्यैः परिवृतस्तथा उपगृह्यासु संवारान्प्रविवेशपुरोत्तमम् सिक्तसम्मार्जितपथाम् पताकोत्तमभूषिता सम्भ्रष्टमनुजोपेताम् समृद्धविपणापणा महोत्सवसमायुक्ताम् राघवार्थे समुत्सुकाम् चन्दना गुरुधूपैश्च सर्वतः परिधूमिता ताम् पुरीम् समतिक्रम्य पुरम् दरपुरोपमाम् ददर्शाम् दः पुरम् पौरजानपदाकीर्णम् ब्राह्मणैरुपशोभितम् यष्टिमभ्यः सुसम्पूर्णम् सदश्वैः परमार्चितैः तदन्तः पुरमासाद्यव्यतिचक्रामतम् जनम् वसिष्ठः परमप्रीतः परमर्षिभिरावृतः सत्त्वपश्यद्विनिष्क्रान्तम् सुमन्त्रम् नाम द्वारे मनुजसिंहस्य सचिवम् प्रियदर्शनम् तमवाच महातेजाः सूतपुत्रम् विशारदम् वसिष्ठः क्षिप्रमाचक्ष्वनृपतेर्मामिहागतम् इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः औदुम्बरम् भद्रपीठमभिषेकार्थमाहृतम् सर्वबीजानि गन्धाश्च रत्नानि विविधानि च क्षौद्रम् दधिघृतम् लाजा अष्टौ च कन्या रुचिरा वरवारणः चतुरश्वो रथः वाहनं शोधनुरुत्तमम् वाहनम् नरसंयुक्तम् छत्रम् च शशिसन्निभम् श्वेते च वालव्यजने भृङ्गारम् च हिरण्मयम् हेमदानपि नद्धश्च ककुद्मान् पाण्डुरो वृषः महाबलः सिंहासनम् व्याघ्रतनुः समिधश्च हुताशनः सर्वे वादित्रसङ्घाश्च वेश्याश्चालङ्कृता स्त्रियः आचार्या ब्राह्मणागावः पुण्याश्च मृगपक्षिणः पौरजानपदश्रेष्ठानैगमाश्च गणैः सह एते चान्ये च चा बहवः प्रीयमाणाः प्रियम् वदाः अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः त्वरय स्वमहाराजम् यथा समुदितेऽनि पुष्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात् इति तस्य वच सूतपुत्रो महाबलः स्तुवन्नृपतिशार्दूलम् प्रविवेशनिवेशनं। तम् तु पूर्वोदितम् वृद्धम् न शेकुरभिसंरोध्वम् राज्ञः प्रियजिगीर्षवः ससमेपस्थितो राज्ञस्तामवस्थामजज्ञिवान् वाग्भिः परमतुष्टाभिरभिष्टोतुम् प्रचक्रमे ततः सूतो यथा पूर्वम् पार्थिवस्य निवेशने सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टावजगतिपतिम् यथा नन्ददि सागरो भास्करोदये प्रीतः प्रीतेन मनसा तथा नन्दयनस्ततः इन्द्रमस्याम् तु वेलायामभितुष्टावमातलिः सोऽजयद्दानवान् सर्वांस्तथा त्वाम् बोधयाम्यहम् वेदाः सहाङ्गा विद्याश्च यथा ह्यात्मभुवम् प्रभुम् ब्रह्माणम् बोधयन्त्यद्य तथा त्वाम् बोधयाम्यहम् आदित्यः चन्द्रेण यथा भूतधराम् शुभा बोधयत्यद्य पृथिवीम् तथा त्वाम् बोधयाम्यहम् उत्तिष्ठसु महाराजकृतकौतुकमङ्गलः का विराजमानो वपुषा मेरोरिव दिवाकरः सोमसूर्यौ च काकुत्स्थशिवैश्रवणावपि वरुणश्चाग्निरिन्द्रश्च विजयम् प्रतिशन्तु गता भगवती रात्रिः कृतम् कृत्यमिदम् तव बुद्ध्यस्व नृपशार्दूल कुरु उदतिष्ठत रामस्य समग्रमभिषेचनम् पौरजानपदाश्चापि नैगमश्च कृताञ्जलिः स्वयम् वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति क्षिप्रमाज्ञाप्यताम् राजन् राघवस्याभिषेचनम् यथा ह्यपालाः पशवो यथा यथा चन्द्रम् विना यथा गावो विना वृषम् एवम् हि भविता राष्ट्रम् यत्र राजा न दृश्यते एवम् तस्य वचश्रुत्वा सान्त्वपूर्वमिवार्थवत् अभ्यकीर्यत शोकेण भूय एवमहीपतिः ततस्तु राजा तम् सूतम् सन्न प्रति शोकरक्ते क्षणश्रीमानुद्वीक्ष्योवाच धार्मिकः वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि सुमन्त्रः करुणम् श्रुत्वा दृष्ट्वा दीनम् च पार्थिवम् प्रगृहीताञ्जलिः किञ्चित्तस्माद्देशादपाक्रमत् यदा वक्तुम् स्वयम् दैन्यान्नशशाकमहीपतिः तदा सुमन्त्रम् मन्त्रज्ञा कैकेयीप्रत्यवाचः सुमन्त्र राजा रजनीम् रामहर्षसमुत्सुकः प्रजागरपरिश्रान्तो निद्रावशमुपागतः तद्गच्छरितम् सूत राजपुत्रम् यशस्विनम् राममानय भद्रम् ते दात्रकार्या विचारणा अश्रुत्वा राजवचनम् कथम् गच्छामि भामिनि तच्छ्रुत्वा मन्त्रिणो वाक्यम् राजा मन्त्रिणमब्रवीत् स्वमन्त्र रामम् द्रक्ष्यामि शीघ्रमानय सुन्दरम् समन्यमानः कल्याणम् हृदयेन ननन्द च निर्जगाम च सप्रीत्या त्वरितो राजशासनात् सुमन्त्रश्चिन्तयामास त्वरितम् चोदितस्तया विरक्तम् रामाभिषेकार्थे इहायास्यति धर्मराट् इति सूतो मतिम् कृत्वा हर्षेण महता पुनः निर्जगाम महातेजा राघवस्यति सागरहृदसङ्काशात् सुमन्त्रोऽन्तः पुराच्छुभात् निष्क्रम्य जनसम्बाधम् ददर्श द्वारमग्रतः ततः पुरस्तात् सहसा विनिःसृतो महीपतेर्द्वार गतान् विलोकयन् ददर्श पौरान् विविधान् महाघनानुपस्थितान् द्वारमुपेत्यभिष्ठितान् इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अयोध्याकाण्डे चतुर्दशः